षण्णवतितमोऽध्यायः वैशम्पायन उवाच इक्ष्वाकुवंशप्रभवो राजासीत् पृथिवीपतिः महाभिष इति ख्यातः सत्यवाक् सत्यविक्रमः सोष्वमेधसहस्रेण राजसूयशतेन च तोषयामासदेवेशं देवेशं स्वर्गम् लेभे ततः प्रभुः ततः तत्र राजर्षयो ह्यासन् स अथ गंगा समुपायात् पितामहम् तस्या वासः समुद्धूतम् मारुते न शशिप्रभम् ततो भवन् सुरगणास्सहसा मुखास्तदा महाभिषस्तु राजः शिरशङ्को दृष्टवान्नदीम् सोपध्यातो भगवता ब्रह्मणा तु महाभिषः उक्तश्च जातो मत्येषु पुनर्लोकानवाप्स्यसि यया हृतमनाश्चासि गङ्गया त्वम् हि विप्रियाण्याचरिष्यति यदा भविता मन्यस्तदा शापाद्विमोक्ष्यसे वैशम्पाय नोवाच सचिन्तयित्वा नृपतिर्नृपान्यान्स्तपो धनान् रोचयामास पितरं भूरितेजसं महाभिशं तु दृष्ट्वा नदीधैर्याच्युतं नृपम् तमेव मनसा ध्यायन्त्युपावर्तत्सरित्वरा सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप ददर्श पथि तथा रूपांस्ततान् दृष्ट्वा पप्रच्छ सवितां वरा किमिदं नष्टरूपास्थ कच्चित्क्षेमं दिवौकसाम् तामू देवाः शप्ता स्मो वै महानदी अल्पेऽपराधे संरम्भात् वसिष्ठेन महात्मना विमूढा हि वयं सर्वे प्रच्छन्नं ऋषि सत्तमम् वसिष्ठमासीनं तमत्यभिस्रुताः पुरा तेन कोपात् वयं शक्ता यो नौ सम्भवतेतिह शक्यं यदुक्तं ब्रह्मवादिना त्वमस्मान्मानुषी भूत्वा सृजपुत्रान् वसून्भुवि न मानुषीणां जठरं प्रविशेम वयं शुभे इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वा प्रवीदिदम् गङ्गोवाच मर्त्येषु पुरुषश्रेष्ठः को वः भविष्यति वसव ऊचुः प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः भविता मानुषे लोके सनः कर्ता भविष्यति गङ्गोवाच ममाप्येवम् मतम् देव यथा माम् वदता नघाः प्रियम् तस्य करिष्यामि युष्माकम् चैतदीप्सितम् वसव ऊचुः जातान्कुमारान्स्वानप्सु प्रक्षेप्तुम् वैत्वमर्हसि यथा न चरकालम् नो निष्कृतिः स्यात् त्रिलोकके गङ्गोवाच एवमेतत्करिष्यामि पुत्रस्तस्य विधीयतां नास्यमोघः सङ्गमः स्यात् पुत्रहेतोर्मया सह वसव ऊचुः सुरीयार्धम् प्रदास्यामो वीर्यस्यैकैकशो वयम् तेन वीर्येण पुत्रस्ते भवितातस्य चेप्सितः न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु भविष्यति सवीर्यवान् एवं ते समयं कृत्वा गङ्गया वसवः सह जग्मुः संहृष्टमनसो इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि महाभिशोपाख्याने षण्णवतितमोऽध्यायः